मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं त्रि नारदभक्तिवर्णनम् श्रीगणेशाय नमः दक्ष उवाच कथं नारायणेनासौ बोधितो मुनिसत्तमः तन्मे कथययोगीन्द्र न दृप्यामि कदामृताद मुग्दल उवाच ये कदा नारदो दक्ष पर्यटन् शङ्करम् गदः तत्र सम्पूजयन्तम् तम् गणेशम् स ददर्शः मूर्तिम् चिन्तामणे साक्षास्तापिताम् रत्ननिर्मिताम् शुण्डादण्डमुखीं चैव शङ्करस्तामपूजयद तं दृष्ट्वा नियमे संस्थं विस्मितो नारदो मुनिः प्रययौ तं नमस्कृत्य विकुण्ठे विष्णुमादराद तं प्रणम्य महातेजा नारदो विनयान्विदः उवाचभक्तिसंयुक्तो नारायणनमोऽस्तु ते त्वं साक्षात् जगदामीशो नुदमे मे संशयं प्रभो कैलासमगमं द्रष्टुमहं शङ्करमुत्सुकः तत्र सोऽपि गणेशस्य मूर्तिं कृत्वा जनार्दन अपूजयन्महाभक्र्या रोमाञ्चितशरीरवान् अश्रुप्रवाहसंयुक्तम् प्रेम्णा चैव परिप्लुदम् ध्यानस्थं शङ्करम् दृष्ट्वा मौनवानभवं प्रभो तं प्रणम्य महाविष्णो त्वदन्तिकमुपागतः त्वं चापि गणराजस्य वदसे नाम मन्त्रकम् शङ्करान्न परम् किञ्चिदव्यक्तम् ब्रह्म कथ्यते शिवो विकारहीनश्च सर्वसिद्धिप्रदो मदः त्वम् तदीया महाशक्तिप्रभो नारायणाह्वया सदानन्दस्वरूपश्च सर्वात्मा चैव कथ्यते सौ गणेशम कदम स्मरसी प्रभो विश्व शंभुस्तम पूजयदी निश ये संशय देवच्छेतमिशव सर्वजस्व रनाथ शाधि शिष्यमागदं मुद्गल उवाच नारदस्य वच श्रुत्वा प्रहृष्टकेशवोऽब्रवीद तं गणेशस्य सम्भक्तेः पात्रं दृष्ट्वा यथार्थतः नारायण उवाच शृणु नारद मे वाक्यं संशयं कुरु मा मुने योगशान्तिस्वरूपोऽयं गणेशो नात्र सिद्धिबुद्धिपतिः साक्षात् स्वानन्दाख्ये पुरस्थितः तस्य भक्तिप्रभावेण वयं वै सर्वसिद्धिदाः विनायकस्य एको वै वयं नायकसंयुताः भजामो भक्तियुक्तास्तं योगशान्त्यर्थमादराद एकदाहं गतस्तत्र कैलासे शङ्गरालये गणेशम् पूजयन्तम् तम् शिवम् दृष्ट्वा सुविस्मितः तस्य नित्यविधिं पूर्णं जादं दृष्ट्वा त्वं त्वम् साक्षान्निर्विकारश्च मोहीनः सदाशिव अव्यक्तं ब्रह्म यत् प्रोक्तम् ब्रह्माधिपतिसञ्ज्ञम् त्वमेव वेदवादेषु कथं वदसि विघ्नवम् कोऽसौ गणेश्वरो नाम तद्वदस्व मम प्रभो सर्वज्ञस्त्वं सदा शम्भुशिष्यं ते तारयस्व शिव उवाच शृणु विष्णो रहस्यं मे शान्दिनं योगसेवया योगपूर्णं गणेशाख्यम ब्रह्म पदप्रदं पद चित्त चिवृत्ति साध्य बुध पंच भेदतया सर्वन कृति प्रकृति परा त्र मोह प्रदा सिद्धिर्ना भ्राति प्रकाशि सिद्ध्यथ पंच यत्नयुक्तं बभूवः धर्मार्थकाममोक्षाणां सिद्धि सर्वत्र कथ्यते ब्रह्म भूयकरी साक्षात् जानीहि पुरुषोत्तमा ब्रह्मणि ब्रह्मभूतो यस्तस्य किं भ्रान्तिरुच्यते धर्मार्थकाममोक्षाणां ब्रह्मभूतस्य वा विभो तस्य पंच विध नास्ति जानी निश्चिम तदा योगी समाख्यादो सामख्याणेश ग्रज्ञात सधिस्थ गकार कथ्यदे रूपो वै वैनकारो वेदवादि तयोस्वामी गणेशोऽयं शान्तियोगमयः सदा निधिरूपोऽहमव्यक्रत्वम् समात्मक उच्यस्य यत्र कुत्र प्रदृष्टा वै सर्वे भवात्मकाः भवप्रत्यययोगस्थो गणेशः पञ्चधा भवत स तु माया, माया वेदेषु खलु मायाखिनो गणेशान उपाय प्रत्ययात्मकः साक्षात् गणेशरूपो च मायायुक्तवियुक्तता नास्ति तस्मात् स लभ्यदे लभ्यते नान्यथा क्वचिद गणेशोऽहं सदा ब्रह्मब्रह्मणां पधिरञ्च योगोयं योगोऽयं गाणपत्याख्यकथितस्ते मै प्रभो अन विधि ज्ञान गाणेशाख्यम पंचविधं चित्तं पंचविध चिंतिताभो यमु महादेव विररामच नारद मै ते कथिद ज्ञान गाणेशाख्यम महामुने अस्मा पददाता स्रम भूय प्रदस्था गणेश कुलदेव तस्मा प्रभजे मुद्गल उवाच तं विष्णु प्रणिपत नारद प्रय यौ मुन तपोवन सद्योगाभ्यासरदोवद गणेशं मनसाध्यायन्न च पन्मन्त्रमुत्तमं दशवर्षे प्रसन्नोऽभूत् गणेशस्तं ययौ मुनिं तं दृष्ट्वा विस्मितोऽत्यन्तं नारदप्रणनाम च कृताञ्जलिपुडो भूत्वा तुष्टावगणपं मुनिः नारद उवाच नमामि गणनाधं तं सर्वविघ्नविनाशिनं वेदान्तगोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितं मनोवाणीविहीनं नो मनोवाणीमयं नच च ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपदिं परम् दर्शनेन हैरम्ब कृतकृत्योऽहमञ्जसा इत्युक्त्वा पूजयामास भक्ति भावसमन्वितः पूजयित्वा गणेशान्नं पुनस्तुष्टावनारदः रोमाञ्चितशरीरोत्सौ भावयुक्तो महामुनिः नमो नमो गणेशाय विघ्नराजाय नमः भक्तानां विघ्नहन्द्रे च भक्तानां विघ्नकारिणे अमेय मायया चैव संयुक्ताय नमो नमः योगरूपाय वैतुभ्यं योगिभ्यो मोहदायते विनायकाय सर्वे श नमश्चिन्तामणे नमः अनन्दमहिमाधार नमस्ते चन्द्रमौलये एकदन्ताय देवाय मायिभ्यो मोहदाय दे नमो नमः परेशाय परात्परतमायते निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे महाकु वाहनायैव मूषकध्वजधारिणे अनादये नमस्तुभ्यं ज्येष्ठराजाय धुण्ठये हरुद्रे करत्रे सदा पात्रे नानाभेदमयाय च त्वद्दर्शनसुतापानाद्धदं मे भ्रान्तिजम्महद मरणं भिन्नभावाख्यं गणेशोऽहम् कृतस्त्वया न भिन्नं परिपश्यामि त्वदृदे गणनायकशान्दिदं योगमासाद्यप्रसादा तेन संशयः भक्तिं देहि गणाधीशपरां त्वत्पादपद्मयोः कुरु मां गणपत्यं त्वं प्रेमयुक्तं च देपदि इत्युक्त्वा विररामाथ तं पुनर्गणपोवद मदीया भक्तिरत्यन्तं भविष्यति सदा चला न योगाचलनं क्वापि भविष्यति महामुने सदा योगीन्द्रपूज्यस्त्वं सर्वमान्यो भविष्यसि त्वया कृतमिदं स्तोत्रं योगप्रदं भवेद् पठते शृण्वते चैव भोक्कृति मोक्तिप्रदायकम् इत्युक्त्वा तस्य हृदये ययौ लीनो गजाननः सदा हृदि गणेशान्नं पश्यति स्म मुनिस्वयं नित्याख्यानं नारदीयं कथितं ते प्रजापते शृणुयाद्य पठेद्वा यः सोऽपि ॐ तत्सदि श्रीमदान्त्ये श्रीमन्मौद्गले महापुराणे द्वितीयखण्डे एकदन्तचरिते नारदभक्तिवर्णनं नाम तृतीयोऽध्यायः ओ